श्रीगणेशाय नमः शौनक उवाच प्रकृतं संवादं शङ्करस्य च शनकादिर्विशेषेण सर्वसिद्धिकरम्बरं नानावतारसंयुक्तं धूम्रवर्णचरित्रकं श्रुत्वा शनकमुख्यासं किमुचुर्योगसिद्धये सूक्त उवाच धूम्रवर्णावतारस्य श्रुत्वाहं वदसंश्रितं चरितं म्रष्टरोमाणः पप्रुच्छुशङ्करन्द्विजाः शनकाद्या ऊचुः नानावतारसंयुक्तं श्रुत्वा माहात्ममुत्तमं सुम्रवर्णः अवतारस्य सन्तुष्टाः स्म सदाशिव अधुनाशादि सर्वेषु योगप्राप्त्यर्थमुत्तमं विधिं सुखकरं शीघ्रं सुगमं योगिनायक इति शिव उवाच वक्ष्ये सर्वसिद्धिप्रदायकं साधकाय महाभागाः शीघ्रेण शान्तिदम्बरं पुराहं गणनाथस्य ध्यानयुक्तो वन्द्विजाः तत्र मां सरितां श्रेष्ठां जगाद् वाक्यमुत्तमं गङ्गोवाच वदशङ्करकस्य त्वं ध्यानं करोषि नित्यदा पृच्छामि तमहं ज्ञातुं तत्तः किं परमं मदं श्रीशिवोवाच गणेशं देवदेवेशं ब्रह्मब्रह्मेशमादरात् ध्यायामि सर्वभावज्ञे कुलदेवं सनादरं तस्य हृदयं देवी गुप्तं सर्वप्रदायकम् कथयिष्यामि सर्वज्ञेयेन तं न्यास्यसे से विभुं पुराज्ञानावृतोऽहं तु तपसि संस्कृतो भवत् तत्र तपःप्रभावेण हृद्यपश्यं मुगजाननं तस्य दर्शनमात्रेण स्फूर्तिप्राप्ता मया प्रिये तया गणेश्वरं विज्ञात्वा युगिवन्ध्यो भवं मुदा तत्तेऽहं सृणु येन गणेशयोगे त्वं संभविष्यसि अस्य श्रीमद्गणेशहृदयस्तोत्रमन्त्रस्य शम्भूरुषिः नानाविधानि छन्दांसि श्रीमत्स्वानन्देशो गणेशो देवताम् इति बीजं ज्ञानात्मिका शक्तिः नादःकीलकं श्रीमद्ब्रह्मणस्पतिप्रीत्यरथं जपे विनियोगः अथ ध्यानं सिन्दूराभं त्रिनेत्रं पृथुधरजठरं रक्तवस्त्रावृतन्तम् पाशं चैवाङ्कुशं वैरतनमभयकं पाणिभिस्सन्ददन्तं सिद्ध्या बुद्ध्या प्रश्लिष्टं गजवदनमहं चिन्तये हेकदन्तं नानाभूषा विरामं निजजनसुखदं नाभिशेषं गणेशं श्रीस्वानन्देशाय ब्रह्मणस्पतये साङ्गाय सशक्तिकाय सवाहनाय सावरणाय नमो नमः गणेशमेकदन्तं चिन्तामणिं विनायकं टुण्डिराजं मयूरेशं रम्भोदरं गजाननम् एरम्बं वक्रतुण्डं च ज्येष्ठराजं निजासितम् आशापूरं दुवर्दं विकटं धरणीधरं सिद्धिबुद्धिवतिं वन्दे ब्रह्मणः पतिसञ्जितं माङ्गल्येशं सर्वपूज्यं विघ्नानां नायकम्बरम् एकविंशतिनामानि गणेशस्य महात्मनः अर्थेन संयुतानि चेत् हृदयं परिकीर्तितम् ङ्गोवाच एकविंशतिनाम्नां सोऽमर्थं ब्रूहि सदा शिवो गणेशहृदयं ये न जानामि करुणानिधे श्री शिवोवाच नकाररूपं विविधं चराचरं नकारकं ब्रह्म तथा परार्तनं तयोस्थितास्तस्य गणाः प्रकीर्तिताः गणेशमेकं प्रणमाम्यहंबरं मायास्वरूपं सदैकवाचकं दन्तःपरो योगे तयोरेकरदं सुमानि दीष्टं नतोऽहं जनभक्तिलालसं चित्तप्रकाशं विविदेशिसंस्थं दीपावलीपादिविवर्जितञ्च भोगैर्विहीनं तथ भोगकारकं प्रणमामि नित्यं विनायकं नायकवर्जितं प्रिये विशेषतो नायकमीश्वरात्मनां निरङ्कुशन्तं प्रणमामि सर्वदं सदात्मकं भावयुते न वेदाः पुराणानि महेश्वरादिकाः शास्त्राणि योगीश्वरदेव मानवाः नागासुराब्रह्मगणाशजन्तवो रुण्डन्ति वन्दे तुतरुण्डिराजकं मायार्थवाच्यो मयूरप्रभावो नानाभ्रमार्थं प्रकरोति तेन तस्मान्मयूरेशमथो वदन्ति नमामि मायापतिमासमन्तात् यस्योदरादिविश्वमिदं प्रसृतं ब्रह्माणि तद्वत् जठरे आनन्दरूपं जठरं हि यस्य लम्बोदरन्तं प्रणतोऽस्मि नित्यं जगद्गलाधो गणनायकस्य गजात्मकं ब्रह्मशिरः परेशं तयोश्च योगे प्रवदन्ति सर्वे गजाननन्तं प्रणमामिनित्यं दीनार्थवाच्य स्वतहेर्जगद्गु ब्रह्मार्थवाच्यो निगमेशरं महा तत्पालकत्वाच्च तयोः प्रयोगे क्षीरम्बमेकं प्रणमामि नित्यं विश्वात्मिकं यस्य शरीरमेकं तस्माच्च वक्रं परमात्मरूपं तुण्डं तु देवं हितयोः प्रयोगे तं वक्रतुण्डं प्रणमामि नित्यं मातापिताजं जगतः परेशां तस्यापि माता जनकादिकन् श्रेष्ठं वदन्ती निगमः परेशं तं ज्येष्ठराजं प्रणमामि नित्यम् नाना चतुस्थं विविधात्मकेन संयोगरूपेण निजस्वरूपं पूरयश्च सा पूर्णसमाधिरूपान् स्वानन्दनाथं प्रणमामि जातः मनोरथान् पूरयतीह गङ्गे चराचराणां जगतां परेषाम् अटो गणेशं प्रवदन्ति चाशा प्रपूरकन्दं प्रणमामि नित्यं वरैः समासातमेव सर्वं विश्वं तथा ब्रह्मविहारिणा अतः परं विप्रमुखा वदन्ति वरप्रदन्तं वरदं नतोऽस्मि मायामयं सर्वमिदं विभाति विद्यास्वरूपं भ्रह्मदायकं च तस्मात् परं सत्यं देनम् परेच्छं विगटं नमामि चित्तस्य प्रोक्ता मुनिभिः पृथिव्यो नानाविधा योगिभिरेव गङ्गे तासां सदा धारक वन्दे चाहं हि धरणी धरमादिभूतम् त्मिका ब्रह्ममयीः बुद्धिः तस्याविमोहप्रतिका च सिद्धिः ताभ्यां सदा खेलति योगनाथ त्वं सिद्धिबुद्धिशमसो नमामि असत्यसत्साम्यतुरीयनैजग निवृत्तिब्रह्माणि विरच्य खेलकः सदा स्वयं योगमयेन भाजितं न माम्यतोऽहं तथ ब्रह्मणस्पतिं न मङ्गलं विश्वमिदं सहात्मभि प्रणेश्वरम् ततः परं मङ्गलरूपधारकं नमामि माङ्गल्यपतिं सुशान्विदं सर्वत्र मान्यं सकलावभासकं सुज्ञैशुभापशुभादिपूजितम् पूज्यन्न तस्मान्निगमादिसम्मम् तं सर्वपूज्यं प्रणतोऽस्मि नित्यं मुक्तिञ्च मुक्तिं च ददाति तुष्टो यो विघ्नः भक्तिप्रियो निजेभ्यः भक्त्या ददाति विघ्नान् संविघ्नराजं प्रणमामि नित्यं नामाभियुक्तं न हरिदं पृहेते विघ्नेश्वरस्यैव परं रहस्यं सप्तत्रिनाम्नां हृदयं नरो यो ज्ञात्वा परं ब्रह्म भयो भयेदिह गङ्गोवाचो नाम्नां हृदयं प्रोक्तं त्वया ब्रह्म प्रदं ब्रं न मे तु तदर्थं वदशङ्कर के शिवोवाच मन्त्रं गुरुह्य गणेशस्य पुरश्चरणमार्गतः भजतं तेन ते ज्ञानं भविष्यति न संशयः हृदयं मन्त्रराजस्य कथयामि यथा समतः मन्त्रैव गणेशानो न भिन्नं तत्र वर्तते ककारो ब्रह्मदेवश्चाकारो विष्णो प्रकीर्तितः बिन्दुशिव तथा भानुः सानुनानिकसञ्ज्ञतः तेषां सन्धिर्महाशक्तिरेभिः स्वमन्त्र उच्यते दे। संयोगकारकः तेभ्यस्तारमयं विश्वं समुत्पन्नं प्रिये पुरा अतिस्तार्युतो मन्त्रौ गणेशैकाशराकृतिः तारसषड्विधः प्रोक्तः स्तन्निबोधः अकारो कारकौ प्रोक्तौ मकारो नाथबिन्दुके शून्यं विद्धि महामाये तत्र भेदं वदाम्यहं शून्यं देहि तु बिन्दुदेह इति स्मृतः ताभ्यां च त्रिविधं विश्वं स्थूलादिभिर्दारकम् एतादृशं विजानीहि मन्त्रराजं गजाननम् आगमोक्तविधानेन कृत्वा न्यासादिकम्बुरा ततो गणेश्वरं पूज्य जपं कुर्याद्विचक्षणः तद्दशांशेन होमं वै कुर्यादागममार्गतः तद्दशांशमितं प्रोक्तं तर्पणं गणपस्य च तद्दशां मार्जनं तद्दशांशतः विप्राणां भोजनं प्रोक्तमेवं पञ्चाङ्गमुच्यते यथा विधिकृतं चेतत् सद्यैव परदं भवेद् अतः त्वं मन्त्रराजस्य पञ्चकं तत्समाचर एवमुक्त्वार्दं तस्यै मन्त्रं यदि समन्वितं गणेशस्य प्रणम्यैव मां दृहौ सा तपोर्सतः समासाध्य चखा तप गङ्गा तत्रैव विप्रेषः मन्त्रध्यानपरायणान् पुरश्चरणमेकं सा चकार सरितां वरान् ततः प्रसन्नतां यातो गणेशो भक्तवत्सलः तस्यैव कृपया तस्याज्ञानं बभूवः तेनैकविंशतीर्नाम्नामर्थज्ञातत्क्षणाद्भूत ततो हर्षयुता देवी तत्र वासं चकारसाम् नित्यं भक्तिसमायुक्ता भजत्तं गणनायकं शनकाजा ऊचुः ब्रह्मभूता सरित् श्रेष्ठा मयूरेशं गतं प्रभुम् अभजत्तस्य मार्गं नो ब्रूहिरात नमोऽसुते श्रीशिवोवाच ब्रह्मभूतो नरो योगी गणेशमभजत् सदा नवधा भक्तिभावेन तत्परश्च पुत्रकलत्रं जनकौसुलद्गणौ द्रव्यं सखावृत्तिविद्ययां स्वर्गस्तु मोक्षो स्वामी गुरुर्विघ्नपतिः परात्रः सांसर्गिकं गायकवाचकं परं कर्माचरन्मानसजन्धृदेहतः ज्ञानं प्रतिष्ठञ्च मया परात्रं समर्पितं किल योगाकारेण विघ्नेश एकानेकादिसंवितः पुङ्क्ते सुविधान् भोगान् शुभाशुभसमाश्रितान् नाहं नरस्वयं साक्षात्क्रीडते गणनायकः स्वामिसेवकभावेन ब्रह्मणीशोपतीर्तः अनेन विधिना विप्राभयं ते गणनायकं योगिनश्चुकमुख्याश्च मुद्गलाद्या महर्षयः एतत्सर्वं समाख्यातं गुह्यं गणपतेर्भयान् हृदयं तेन विघ्नेशं यथा देहेन्द्रियाद्येषु जठर मुख्यं हृदयं श्रुतं यत्र जीवस्वरूपेण तिष्ठति गणनायकः तथा गणपतेरेत हृदयं परिकीर्तितम् अत्र योगपतिः साक्षात् तिष्ठति ब्रह्मनायकः अनेन गणनाथस्तु यस्तो शतीनरोत्तमः स भुक्त्वा सकलान्भोगानन्ते योगमयो भवेत् एवं मदीयमाक्यन्ते श्रुत्वा ब्रह्मसुतः परम् प्रणम्यमां यदुः सर्वे खलकाद्यास्तभोवनं तत्रैकाक्षरमन्त्रस्य पञ्चकं सेव्ययोगिनः गणेशहृदयं ज्ञात्वा गाणप्रत्या बहुविरे ततो नित्यं गणेशस्य हृदयं ते महर्षयः जपन्ति भक्तिसंयुक्ता भ्रमन्ति स्वेच्छये ऋताः अतस्त्वमपि भावेन गणेशहृदयं परं सेवस्वगाणपत्येषु मुख्यस्तथा भविष्यति सीमन्मुद्गल उवाच एवमुक्त्वा महानागं शेषाय पददौ शिवः मन्त्रमेकाक्षरं साङ्गं सजय उतं प्रणम्य च सातयित्वा यथा न्यायं हृतयज्ञ बभूवः नित्यं हृदय केनैव तुष्टावद्विरदाननम् गणेशहृदयं पुण्यं शृणुयाच्छावयेन्द्रः ईक्षितं ब्रह्मभूतो भवेदिह नित्यं पठेन्दरश्चेदं हृदयं गणपश्र्यः सगणेशो न सन्देहो दर्शनात् सिद्धितो भवेद् पुत्रपौत्रकलत्रादि पा लभते पाठतो नरः सुविवं धनं धान्यम् आरोग्यम् अचलां श्रियम् एकविंशतिवारं यो दिवसानेकविंशतिं पठेद्गणपतिं चिन्त्य स लभेति सितम्बरम् असाध्यं साधयेन् मर्त्यो गणेशहृदये न यत् राजबद्धं दृढा कालेषु मोचयेत्पाठतो विधे मारणोच्चाटनादीनि वश्यमोहादिकानितुम् अनेन साधयेन्मर्त्यः परं कृत्यं विनाशयेद सङ्ग्रामे जयमाप्नोति वीरश्रीसंयुतो भवेत् अस्य पाठेन भो दक्ष न किञ्चित् दुर्लभं भवेद विद्यामायुर्यशप्रज्ञामङ्गहीनोऽङ्गमाप्नुयात् यं यं चिन्तयति मर्त्यस्थन्तं प्राप्नोति निशिदं नानेन सदृशं किञ्चित् शिखरसिद्धीकरं भवेद् साक्षात् गणपतेः प्रोक्तं हृदयं ते मया विगे गणेशभक्तिहीनाय दुर्विनीताय विविषे हदेयं गणराजस्य हृदयं वै कदाचन गणेशभक्तियुक्ताय साधवे च प्रयत्नतः दातव्यं तेन विघ्नेशसुप्रसन्नो भविष्यसि महासिद्धिवृतम् तुभ्यम् कथितम् गणपस्य च हृदयम् किं पुनः श्रोतुमिच्छसि त्वम् प्रजापते श्रीमद्गणेशार्पणमस्तु